ण्डे चतुर्थप्रश्च प्रारम्भः दश्रन्मे देवादधि रङ्गक्षेयम् रोदामिति एतञ्चतुर्विकंशतुरात्रं पश्यत्तमाहर्तेनाय देवागच्छत् पुरोधाञ्जेवं मृदातुर्विगुंश्रमासदेश्या भवन्ती ज्योतिरन्दरिक्षंजो रसामानेव लोकानप्यारोहन्य पूर्वं त्रिया भवन्त्यपि पूर्वमेव्यारोहं दोमं यच्छन्दोमा भवन्ति तेन सत्रन्देवता एव पृष्ठैर्वन्धो ैराज वै वीर्यं पृष्ठानिन्दो मावस्यैव वीर्ये प्रतिष्ठन्ति एव सुवर्गे लोके प्रतिष्ठन्ति गायत्री ब्रह्मवर्त्यसङ्गायत्र्यैव ब्रह्मवर्त्यसमवृन्धयति रात्रा भविता भवता ब्रह्मवर्जसस्य परिगृहेत्रे यथा वै मनुष्या एवं देवाग्रा सन्देहकामयन्तावृत्तिम्बात्मानं मृत्युमपहत्य दैवीकोदं गच्छेमेरात्रमपश्यन्तमाहरन्देना यदं तवैदेवम्बात्मानं मृत्युमपहत्यदैवीकोदमगच्छति एवंशरात्रमासदेवत्तिमेवनमहत्य श्रीं गच्छन्ति श्रीरिवनुष्यस्य दैवीवरात्रस्यानुख्या संवत्सरस्थमासार्धमासार्तव प्रविश्य देवीमोगच्छति चतुर्विगुंशति रात्रमासदे प्रविश्यो सगोसदं गच्छन्ति त्रये त्वे श्रीगुंशा अवस्तार्थत्रये त्रये श्रीगुंशास्तात् श्रीगुंशे देवो भैतोभर्तिम् आत्मानमभवत्येवी सगुंसत्यामि वा एतत्कुरुन् दियत्रये त्वे श्रीगुंशा अन्वञ्जोपध्येन ्योर्ध्वानि पृष्ठानि भवन्तिोच्छन्दोमाध्वाभ्यागो रूपाभ्यागो लोकयन्ते सत्रं एतद्योम्यच्छन्दोमा भवन्ति तेन सत्रं देवता एव पृष्ठैरवर्धते पशुवंशन्दो वैरो यो वै वीर्यं पृष्ठानि पशुपच्छन्दोमा गोरस्येव वीर्ये पशुषप्रतिष्ठन्ति त्रयस्त्रे श्रीवस्थात्रेयस्त्रे श्रीस्थान्मध्ये पृष्ठान्यो वै त्रे श्रींशा आत्मा पृष्ठानि बृहदाभ्यामेव यञ्जमायो प्रदिष्टं देवै इत्यस्याञ्जसायिनी सुर्गं लोकयन्ति स्वर्गल् लोकमभ्यायैव राचीनान् पृष्ठान्युपयन्त्य प्रत्यन् चतुर्विकोशितरात्रा भवति चतुर्विकंशिधमासार्गो लोकसं एव स्वर्गे लोके प्रतिष्ठन्त्य चतुर्विकोशित्यक्षरागायि त्रिगायि त्रि ब्रह्मश्च सङ्गायि त्रि ब्रह्मश्च समवर्धते जना ब्रह्म धनस्य विरहेति रक्षा वा इम नामकासि सा कामयितौषधी बृहनस्पतिभिप्रजा ये गौरात्रिस्तीं विराजमगृश्यतान्धौषधे महिमानमगच्छद्य एवं विद्वांस एतारास एव प्रतिष्ठन्त्यंशास्त्रे त्रिगुंशमुपयन्तिमेवानन्दे प्रतिष्ठत्यै त्रि नव भवति विजित्या एकविघुंशा भवति त्या अदौर्जमेवात्मन्दद त्रिवृधक्ष्वत्मानमेव त्रिवृत्तेज एवात्मन्ददये पञ्चदश इन्द्रो भवतीन्द्रियमेवावृन्धते सप्तदश भवत्यन्नाद्यस्यात्मन्दद चतुर्विर्विकुंशति रक्तमासा संवत्सरः संवत्सरस्वर्गो लोकस्संवत्सर एव स्वर्गे लोके प्रतिष्ठन्ते भवन्ति एवंश एतासदे चतुर्विपुंसात् पृष्ठान्युपयन्ति संवत्सर एव प्रतिष्ठाय देवताभ्यारोहन्ति त्रय श्री त्रय श्रिपुंशमुपयन्ति त्रयस्त्रिपुंशद्वै देवता देवतास्वेव प्रतिष्ठन्ति लोकेष् प्रतिष्ठन्ति द्वावेकविगुंशो भवदप्रतिष्ठित्वात्मनश्चोडर्शिनो भवन्ति तस्मात्मा भवन्ति तस्मादयौषधीभिर्विशक्तान्ते प्रजया पशुभिर्य एवम् एता सदे कृता वा एते सुन् लोकय्यन् श्रुत्यावचारोमानुभयन्ति यदेतूर्ता कृप्ता स्तोमा भवन्ति कृप्ता एव सुवर्गन् लोकय्यन्भयोरेत्यो लोकयो कल्पदे त्रिपुंसदेतांसदक्षरा विराडन्नम् विराट् विराजीवान्नात्यमोरन्धदेति रात्रापि भवतोनात्यस्य स्वर्गं लोकमेत्तं देवा येन येन छन्दसा नृतायुञ्जलेन नान्द एतात्मात्रिमोरात्रिमोदक्षरा नृष्टगानुष्ठभक् प्रजापतिश्वेरेव प्रजापतिमात्वाभ्यात्मस्वर्गं मृत्वांस एतासदेत्वा त्रिमोतात्मात्रिमोदक्षरा नृष्टगानुष्ठभक् प्रजापतिश्वन्दसा प्रजापतिमात्त्वा श्रीयं गच्छन्ति श्रीमनुष्ठस्य क्षरा नष्टमेव्योतिरङ्गरक्षङ्गौ रसा वायुमानेव लोकापि भवन्त्यपि पूर्वमेव समर्गं लोकमभ्यारो हन्ति बृहत् वारमसो बृहदा प्रतिष्ठन्त्येव यज्ञस्याञ्जसायिनैः श्रुराभ्यामेव लोकयन्ते पराङ्गे सुवर्गम् लोकमभ्यारोहण्ये परा स्त्रियः प्रत्यम् त्रियो भवति प्रत्यपरोढ्याभयोस्त्रिंशत्रिगुंसङ्गम्नाद्ये द्वयो रात्रे रूपाभ्यागुंसुर्वर्गम् लोकयन्ति रात्रावीति ेवावदेव त्रयत्रिपुंशदेवं मृत्त्वा पुंशत्रयत्रिपुंशदधमासे साक्षादेव देवतारोहं श्रेयानुयत्रिपुंशदहमासदेव पात्मनाभ्रारूयेणावर्तं ते हर्था जोता देवाग्रहाैते प्रबाहु े त्रिवंधमासे प्रभाे ब्राह्मणेयं प्राप्नुवन्ति पञ्चाः भवन्ति संवत्सरे प्रतिष्ठञ्च भुञ्जाक्षराभं दिवाञ यज्ञो यज्ञमेवावृन्धते त्रीण्याश्विनानि भवन्ति त्रये लोका येष्वेव लोकेषु प्रतिष्ठन् जो त्रीणिन्द्रियाणि सर्वो ष्टा त्वादशाहं वयं चाप्तापरिष्टाद्वाचावदाम वान्तरं वैदशरात्रेण प्रजापतिप्रजा सृजतेदश रात्र भवति प्रजा एव तद्जमानासृजन्त एतागुहवा उदङ्कस्योर्वाहि सत्रस्य रात्रौ दशरात्र भवति सत्रस्य ध्यासो यदेव एता रात्रयोजमाना विश्वजित्सा रात्रेण पौर्वाश्वाडशधात्रेणाकरा प्रजाया यदि रात्राव आदित्यागामयन्द सुवर्गल् लोकमियामेति तेषु वर्गं लोकं न प्राजानुन्नसवर्गं लोकमायिन्द एतकुंशत् त्रिकुंशत् रात्रमपश्यन्तमाहरन्देनायजन्दवैदेश वर्गं लोकं प्राजानन् न्ति ज्योतिरितरात्रोतरेव पुरस्तानुख्या चत्वारो भवन्ति चतुषा धिक्ष्वेव प्रतिष्ठन्ति सत्रं वा एतद्यच्छन्दोम्यच्छन्दोमा भवन्ति तेन सत्रं देवता एव पृष्टैरीर्यं पृष्ठानि ओजस्येव वीर्ये पशुषप्रतिष्ठन्दत्रिवंशत्रा भवति षत्रिगुंसदक्षा बृहदीपार्हता पशुव बृहतीव पशुनछन्दसामाश्रदान्य एवम् अधिष्ठाः समुत्रागामय विन्देय प्रजापभिधौ दासान् भवेयमिति स एतमेकस्मान्नपञ्चाशमपस्यत्तमाहरत्तेनायविन्द तत्प्रजामभिधौ दासानुभवत्य एवं वित्मांस एकस्मान्नपञ्चाशमासदे प्रजात्रैस्त्रिष्टो माभवन् त्रिवज्रीमखपुंस कश्यन्ति दशपञ्चदशाभवन्त्रिपञ्चदशाद्रमेव प्राद्रुयेभ्यप्रहरन्त्रिषोडशिमध्य शमहद्भव द्विवज्र एव वीर्यम् स्यावर्ध्या भवति षड्वार्दवश्येव नेत्सर एव प्रतिष्ठन् विभुंशा भवन्ति प्रतिष्ठत्यात्मन्देव प्रतिष्ठन्त्यूनातिरिक्ता वा एतारात्रयूना ष्टाचत्वारिंशत ऊनाच्च अतिरिक्ताच्च प्रजापतिः प्राजायदये प्रजाकामात् पशुकामा प्रजया पशुभिर्वै राजो वा एषो एकस्मान्न एवम् विद्वांस एकस्मान्नमेव गच्छन् जन्नादाभवरात्राववितो भवतो नाद्यस्य परिगृहेति संवत्सरा यीक्षिष्यमाणा एकाश्चायान्दीक्षैरण्येषा वै संवत्सरस्य पत्नीकाश्च एष एता गोरात्रिं वसति साक्षादेव संवत्सर मा एते संवत्सरस्याभिलीक्षन्दे काश्चायान्दी का क्षन्देन्द्र का नामानामृतो भवतो संवत्सरस्याभिली एतत्संवत्सरस्यैत्रा पौर्णमासे एव क्षे सत्या सम्पद्यते पूर्वपक्षम् अभिसम्पद्यन्ते ते पूर्वपक्षोष्ठन्दितान् कल्याणि कीर्तनोत्तिष्ठमाना इति तदनु सर्वेनात्मवन्ति स्वर्गम् वा ये ते लोकयन्ति ये सत्रम् वैन्द्रिये दीक्षाभिरात्मानत्वश्रपयन्तत्मलक्षिणम् वै सत्रमात्मानमेव दक्षिणा नीत्वा स्वर्गम् लोकयन्ति शिखामप्रवन्तरध्यागीयागुंसत्सवर्गम् लोकमयामेति रात्रः परमो यज्ञकृतोमेवैतेष्टामं प्रथममुपयुञ्ज्योतिष्टामो वै स्वामानां स्वामान्पयुञ्जते लोकाच्युरोग्स्वर्गमेव तेन लोकयन्त्यर्थम् तरन्दि वा भवति रथम् तरन्नमीति ब्रह्मसामम् बृहत् विधुद्धैते नायामि ज्योतिष्टामं प्रथममुपयन्त्यस्मिन्नेव तेन लोके प्रतिलष्ठं द्विगोष्ठामं द्वितीयमुपयन्त एव तेन प्रतिष्ठं जायिष्ठामंस्मिन्नेव तेन लोके प्रतिलिष्टं ज्योतिरन्तरिक्षं गौरता वायष्वेव न प्रतिष्ठं जायन्ते सकृता विराजमविदं भजन्ते लग् त्यमार्चं भवन्तिवाधाय वैना नितप्रदीताेन यद्देव चक्रं षडेन इन्द्रिदेव चक्रमेव समारोञ्जनिश्चयिते स्वस्ति चोते षडहेन इन्द्रिषकार्यो दिषा इन्द्रिभैतरेव स्वर्गे लोके प्रतिष्ठन्दोन्द्रितोषडो भवतस्तान् वै पुरुषोक्ते सख्यो हान् सम्पद्यन्ते चतुर्विकंसितरमासाः संवत्सरस्तत्संवत्सरमनुवर्तन्ते प्रतिष्ठतः ृद्ध्या बर्मा ब्रह्मणात्यागायुक्लीस्त्रिवस्तोमेव स्वावन्दप्रियन्त्वा प्रियाणाम् वरिषिष्ठमाप्यानान्यवामहेव सोम गोप्या विश्वाः कुल्या विश्वाहाकर्या विश्वाहाट्या विस्वाहा कन्या विश्वाहा विश्वाहा सोद्या विस्वाः सस्या विश्वाहा विश्वाहाल्या विस्वा विश्वाहा विस्वाहा राजनी विश्वाहा विश्वा विश्वाहा सिन्दमाना विस्वाहास्थाभ्रा विस्वाहा नादे विश्वाहा सैन्धवी विस्वाः न्ति नभोभ्यस्वाहाभ्यस्वाहाभ्यमेति वरुणः परोमत्तः परश्व अहं चत्वम् च वृत्हंसमभोवनिभ्यः हराती वाचिद्रिपो नु नौ शूरमकुंसते भद्रा इन्द्रस्य राजया अभिकृत्वेन्द्रभोरधज् मन्नते विव्यङ्गहिमानसूरजागुंसि स्वेनाहि वत्रंसमसा जघम् येनमो वरुणा यनमोऽश्वायनमः ये प्रजापतयेनमोऽधिपतयेधिपतिरस्यधिपतिरहम् भृजानाम् भूयासम् उपाकृतास्वाहापोर्वातोभिवातोस्रा ऊर्जस्वधीरोषधीरारिशन्ताम् एवस्वतीत्येव सन्न्याप्यमन्तवसाय पद्मतेरुद्रमुडास्वरूपाभिरूपा एकरूपा यासामग्निरिष्ट्या नामा निवेद या इस्तव सेहचुकृस्ताभ्यमहि शर्मयच्छा या देवेषु तनुवमीरयन्दया सांसो विश्वारूपाणि वेदा ता अस्मभ्यम्बयसाभिन्ममाना प्रजापतीरिन्द्रगोष्ठैरि प्रजापतिर्मह्यमेतारराणोऽश्व पितृभिस्संविधानः शिवा सतीमागस्तासान्वयम् प्रजया सेमा ौरासेत् पूर्वजित्श्वासे गृहद्वयः रात्रिरासेत् पिशङ्ला विराजेला अस्विदेकौ पुनः खिग्लं दिग्स्विधापद सूर्य एकाकीचरति चन्द्रमाजायते पुनः सोममा हृष्णोश्व तौ ञ्जमन्वजाञ्जीवभोजनो यहास्त्रीणामीत्यः यहासाम् कृष्णे लक्ष्मणि सर्दिगतमिमरावधीत अम्बे बाल्यम् विकेलमाय बति कश्चन अम्बे ्यते श्रोत्राय दर्यया राणपोषाय धना इति अम्बेहम् बाल्यम्कश्च माता चिदेता चितेक्रम् वृक्षस्य लोहतः देपिता गभे मुष्टिमतकुंसयत् अधिक्राण्णोकार्जन्जिष्णोरश्वस्य वाजिनः सुरभिनामुखाकरप्रणायुमुतार्जतयोः स्थानमूर्त्य महेरणाय रक्षसे योगशिवतमारसस्तस्य भादे देहनः शुधिरिव मातरः तस्मा रङ्गमामभो यस्य क्षयायजन्नुधा जनः स्वान्यन्तुकायत्रेण सन्दसार्त्रास्तान्यन्तु त्रैष्टभेन छन्दसादित्रास्तान्यन्तु जागतेन छन्दसाय अपो अगमीन्द्रस्य तलवम् प्रियाम् एतद्वस्वात एतेन पथा पुनरश्वमावर्तयासिनः यी गव्याय एतद्देवान्नमत्तैतदन्नमध्युप्रजापते युजन्ते प्रथमऋषञ्जरम् दम्बलि तसृषा रोचन् दे रोचनादिवि युञ्जन्तस्य काम्या हरिविभक्षधारते शोणादृष्णो निवाहता केदुम् गण्णन्न केदवेशमर्यापेशसे समश्रुद्धिरजायिता स्वाहा बाणा यस्वाहा स्नावभ्य स्वाहा सन्धानेभ्यस्वाहा परिसन्धानेभ्यः पर्वभ्यस्वाहा सन्धानेभ्य स्वाहा शरीरेभ्य स्वाहा दक्षिणा स्वर्गास्वाहा लोकाय स्वाहा सर्वस्मै स्वाहा सिता स्वाहासि स्वाहाय स्वाहारा स्वाहा युक्ता स्वाहा युक्तायुक्ता स्वाहोद्युक्ता स्वाहा विमुक्ता स्वाहा प्रमुक्ता स्वाहा स्वाहा स्वाहो स्वाहा चतुर्थः प्रश्नः समाप्तः